श्री श्रीगणेशय नम श्री गौरीशंकराभ्या अथ श्री शिव महापुराणे, शिवमहापुराणे विद्यरसहितायाध्याय ब्रह्मोपरी शिवस्या नन्देशवाच सहादेव पुषं कंचिद्भुत भैरवाख्यम् भ्रूर्मध्यात् ब्रह्म दर्प जिघान्तया तवैतदा तत्र पतिम् प्रणम्य शिवमङ्गणे किं कार्यम् करवान्यत्र शीघ्रम् वा ज्ञापय प्रभो शिवोवाच वत्सयोऽयम् विधिः साक्षात् जगताम् आद्य दैवतम् नूनम् अस्ते जवसा परम् स वै गृही त्वैककरेण केशम् तत्पञ्चमसत्यभाषिणम् छित्वा शिरो ह्यस्य निहन्तुमुद्यते प्रकम्पयन् स्फुटं करे पिता तवोत्सृष्ट विभूषणाम्बरे प्रगुत्तरीयामरकेश संहति प्रवातरम्भेवलतेव चञ्चले पात्र वैभैरवपादपङ्कजे तावद्विधिं तातरिदृक्षु अच्युते कृपालु अस्मत्प्रतिपादपल्लवम् निशे च बाष्पेरवदत्कृतं जी यथाशिशु स्वं पितरम् कलाक्षरम् अच्युतवाच त्वया प्रयत्नेन पुरा हि दत्तम् यदस्य पञ्चाननमे चिह्नम् तस्माक्षमस्वाद्य कुरुप्रसादं कुरु प्रसादम् विधयेयमुष्मयै इत्यर्थितोच्यते च तुष्टसूरङ्गणाङ्गणे निवर्तया मास सदा भैरवम् ब्रह्मदण्डतः अखाहदेव कितवम् विधिम् विगतकन्धरम् तम् अर्हणाकाङ्क्षी षठे शतम् समासितः नातोके भूयात्थानोत्सवादिकम् ब्रह्म उवाच स्वामिन् प्रतीदाद्य महाविभूते मन्ये वरम् मे भगवते बन्धवे विश्वयोनये सहिणवे च दोषाणाम् शम्भवे शैलधन्वने ईश्वर उवाच अराजे भयमेतद्वै जगत् सर्वं विनश्यति ततस्तम् जहि दण्डार्हम् वः लोकधुरं चितो वरं ददामि तत्र गृहाणे दुर्लभम् परम् वैतानिकेषु गृह्येषु यज्ञेषु च भवान् गुरुः निष्फलत्वदृते यज्ञ साङ्गच्च सः दक्षिणः अथाहदेव कितवम् केतकम् कूटसाक्षिणम् रे, रे केतकदुष्टस्तम् श च दूरमितो व्रज ममापि प्रेमते पुष्पे मा भूत्पूजास्वितः परम् इत्युक्ते तत्र देवेन देवदातयः सर्वान् निवारयामासु तत्पार्श्वादन्यतस्तदा केत उवाच नमस्तेनाथ मे जन्म निष्फलम् भवदाज्ञया सफलं क्रेताम् तात् क्षम्यताम् नव किल्बिषम् पापं पापम् नाशूयेत्येव ते तादृशे त्वयि दृष्टे मे मिथ्या दोष कुतो भवेत् तथा सुतस्तु भगवान् केतकेन सभास्थले न मे त्वैद्वारणम् योग्यम् सत्यभागहमीश्वरः मदीयास्ताम् धरिष्यन्ति जन्म ते सफलम् ततः संवेवितान् व्याजेन ममोपरि भविष्यति इत्यनुगृह्य भगवान् एतकम् विधिमाधवो विरराजसभा मध्ये सर्वदेवै अभिष्टुतः इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् शिवानुग्रहवर्णनम् नाम अष्टमोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु